अथ श्रीदुर्गासप्तशती प्रथमोऽध्यायः ओम् प्रथममरित्रस्य ब्रह्मा ऋषिः महाकाली देवता गायत्री छन्दः नन्दाशक्तिः रक्तदन्तिका बीजम् अग्निस्तत्त्वम् ऋग्वेदस्वरूपम् श्रीमहाकाली प्रीत्यर्थे प्रथमचरित्रजपे विनियोगः ध्यानम् खटकम् चक्रगदेषु चापपरिधाञ्चूलम् भुषुण्डीम् शिरः शङ्खम् सन्दधतीम् करैस्त्रिनयनाम् सर्वाङ्गभूषावृताम् नीलाश्मद्युतिमास्यपाददशकाम् सेवे महाकालिकाम् यामस्त्वत्स्वपिते हरौ कमलजो हन्तुम् मधुम् कैटभम् ओम् नमश्चण्डिकायै ओम् ऐम् मार्कण्डेय उवाच यो मनः कथ्यतेष्टमः निशामय तदुत्पत्तिम् मम महामायानुभावेन यथा मन्वन्तराधिपः बभूवमहाभागः सावर्निस्तनयोरवेः स्वारोचिषेऽन्तरे पूर्वम् चैत्रवंशसमुद्भवः सुरथो नाम राजाभूत् समस्ते क्षितिमण्डले तस्य पालयतः सम्यक् प्रजाः न्यूनरपतु कोलाध्वंसीजि तत स्वरत निज देशक्रांत सहाभागस्त प्रबला अत्यबलिदुष्टैर्दुर्बल से दुरात्म कोशो बल चापृत स्वुरे तत तथो मृगया व्याजेन हृतस्वाम्य सूपति एकाकी हयमारुह्य जगामगहनम् वनम् स तत्राश्रममद्राक्षी द्विजवर्यस्य मेधसः प्रशान्तस्वापदाकीर्णम् मुनिशिष्योपशोभितम् तस्थोकञ्चित्सकालम् च मुनिना तेन सत्कृतः इतश्चेतश्च विचरंस्तस्मिन्मुनिवराश्रमे सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टचेतनः मत्पूर्वैः पालितम् पूर्वम् मया हीनम् पुरम् हितत मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा न जाने स प्रधानो मे अनुवृत्तिम् ध्रुवम् तेत्यकुर्वन्त्यन्यमहीभृताम् असम्यग्ययशीलैस्तैः कुर्वद्भिः सततम् व्ययम् सञ्चितः कोशो गमिष्यति एतच्चान्यच्च सततम् चिन्तयामास पार्थिवः तत्र विप्राश्रमाभ्यासे वैश्यमेकम् ददर्शसः पृष्टस्तेन कस्त्वम् भो हेतुश्चागमनेऽत्रकः स शोक इव कस्मात्त्वम् दुर्मणा इव लक्ष्यसे इत्याकर्ण्यवचस्तस्य भूपतेः प्रणयोदितम् प्रत्युवाच सतम् नृपम् वैश्य उवाच समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनाम् कुले पुत्रदारैर्निरस्तश्च धनलोबादसाधुभिः भी। विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् वनमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः सोऽहम् सोहं वेत् पुत्राणाम् कुशलाकुशलादि प्रवृत्तिम् स्वजनानाम् च दाराणाम् चात्रसंस्थितः किम् नु गृहे क्षेममक्षेमम् किन्नु कथम् ते किम् नु सद्वृत्ता दुर्वृत्ताः किम् नु मे सुताः राजोवाच यैर्निरस्तो भवान् लुग्धैः पुत्रदारादिव्यर्धनैः तेषु किम् भवतः स्नेहमनुबध्नाति मानसम् वैश्य उवाच एवमेतद्यथा प्राहभवानस्मद्गतम् वचः किम् करोमि न बध्नाति मम निष्ठुरताम् मनः यैः सन्त्यज्यपितृस्नेहम् धनलुब्धैर्निराकृतः पतिस्वजनहार्दम् च हार्दितेष्वेव हार मे मनः हा। किमेतन्नाभिजानामि जानन्नपि महामते यत्प्रेम प्रवणम् चित्तम् द्विगुणेष्वपिबन्धुषो तेषाम् कृते मे निःश्वासो दौर्मनस्यम् च जायते करोमि किम् मार्कण्डेय उवाच ततस्तो सहितो विप्रतम् मुनिम् समुपस्थितौ समाधिर्नाम वैश्योऽसौ सज पार्थिवसत्तमः कृत्वा तुतो यथा न्यायम् यथार्हम् तेन संविदम् उपविष्टौ कथा काश्चिश्चक्रतुर्वैश्यपार्थिवौ राजोवाच भगवान् स्वामहम् प्रष्टुमिच्छाम्येकम् वदस्व तत् दुःखाय यन्मे मनसः स्वचित्तायत्तताम् गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि जानतोऽपि यथा यस्य किमेतन्मुनिसत्तम अयम् च निकृतः स्वजनेन च संयजकस्तेषु हार्दि तथाप्यति एवमेष तथाहम् च द्वावप्यत्यन्तदुःखितौ दृष्टदोषेऽपि विषये मम त्वाकृष्टमानसौ तत्किमेतन्महाभागयन्मोहो ज्ञानिनोरपि ममास्य च भवत्येषा विवेकान्धस्य मूढता ऋषिरुवाच ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे विषयश्च महाभागयाति चैवम् पृथक् पृथक् दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथा परे केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ज्ञानिनो मनुजाः सत्यम् किम् तु तेन केवलम् यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ज्ञानम् च तन्मनुष्याणाम् यत्तेषाम् मृगपक्षिणाम् मनुष्याणाम् च यत्तेषाम् तुल्यमन्यत्तथोभयोः ज्ञानेऽपि सति पश्यैतान् पतङ्गाध्यावच्जुषो कणमोक्षादृतान् मोहात् पीड्यमानानपि क्षुधा मानुषामनुजव्याघ्रसाभिलाषाः सुतान्प्रति लोभात्पत्युपकाराय नन्वेतान् किम् न तथापि मम तावर्ते मोहकर्ते निपातिताः महामाया संसारस्थितिकारिणा तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः महामाया हरेश्चैषा तया सम्मोह्यते जगत् ज्ञानिनामपि चेतांसि देवी भगवती हि सा बलादाकृष्यमोहाय महामाया प्रयच्छति तया विसृज्यते विश्वम् जगते तच्चराचरं सैषा प्रसन्ना वरदा नृणाम् भवति मुक्तये सा विद्यापरमा मुक्तेर्हेतुभूता सनातनी संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी राजोवाच भगवन् का हि सा, सा देवी महामानेति याम् भवान् ब्रवीति कथमुत्पन्ना सा कर्मा स्याश्च किम् द्विजा यत्प्रभावा च सा देवी यत्स्वरूपा यदुद्भवा तत्सर्वम् श्रोतुमिच्छामि त्वत्तो जगन्मूर्तिस्तया सर्वमिदम् ततम् तथा तत्सुत्पत्तिर्बुदा शूयता मम देना सिध्यथ आभवती सा यदा उत्पन्ने तदा लोके साधीये योग निद्रा यजगते भगवान भगवान्भु तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ विष्णुकर्णमलोद्भूतौ हन्तुम् ब्रह्माणमुद्यतौ सनाभिकमले विष्णो स्थितो ब्रह्मा प्रजापतिः दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तम् च जनार्दनम् तुष्टावयोगनिद्राम् तामेकाग्रहृदयस्थितः निबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् विश्वेश्वरीम् जगद्धात्रीम् स्थितिसंहारकारिणी निद्राम् भगवतीम् विष्णोरतुलाम् तेजसः प्रभुः ब्रह्मोवाच त्वम् स्वाहात्वम् स्वधात्वम् हि वषट्कारस्वरात्मिका सुधात्वमक्षरे नित्ये त्रिधामात्रात्मिका अर्धमा स्थितायानुच्चार विशेष सितत्री जननी परायत विश्व थय तत्सृज्यते जगत्य पाल्य से देवष्ट सृष्टि स्थित पालने तथा संहृतिरूपान्ते जगतोस्य जगन्मये महाविद्या महामाया महामेधा महास्मृतिः महामोहा च भवति महादेवी महासुरी प्रकृतिस्त्वम् च सर्वस्य गुणत्रयविभाविनी कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा त्वम् श्रीस्त्वमेश्वरी त्वम् हि त्वम् बुद्धिर्बोधलक्षणा लज्जा पुष्टिस्ता तुष्टिस्ातिर शांति खिनी शूलिनी घोरा गिनी चक्रिणी तथा शखिनी चापिणुषुंडी पिघाु सौम्या सौम्यतरा शेष सौम्येभ्यस्पति सुंदरी परापराणा परमे परा परी येचिवस्त सदसद्वाखिलामक तस्य सर्वस्य या शक्तिः सा त्वम् किम् स्तूयसे तदा यया त्वया जगत्स्रष्टा जगत्पात्यतियो जगत् सोऽपि निद्रावशम् नीतः कस्त्वाम् स्तोतुमिहेश्वरः विष्णुः शरेण ग्रहणमहमीशान एव कारितास्ते यतो तस्त्वाम् कस्तोतुम् शक्तिमान् भवेत् सात्थ प्रस्ैरदारेर्दे संस्तुता मोहएतौ दुराधर्शासुर मधुकबोधम चगत्स्वामी नीयतामच्युत लघु बोधस्क्रियतामस्य हूमेत महासुर ऋषिवाच एवं स्तुता तदा दीताेधसा विष्णोः प्रबोधनार्थाय निहन्तुम् मधुगैतभौ नेत्रास्य नासिका बाहुहृदयेभ्यस्तथो रसः निर्गम्यदर्शने तस्थो ब्रह्मणोऽव्यक्तजन्मनः उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः एकार्णवेः शयनात्ततः सदृशे च तौ मधुगैतभौ दुरात्मानाभतिवीर्यपराक्रमौ क्रोधरक्ते क्षणा वक्तुम् ब्रह्माणम् जनितोद्यमौ समुत्थाय ततस्त्राभ्याम् वियुधे भगवान् हरिः पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः तावप्यतिबलोन्मत्तौ महामाया विमोहितौ उक्तवन्तौ वरोऽस्मत्तो भ्रियतामिति केशवम् श्रीभगवानुवाच भवेदा मद्यमे तुष्टो मम वध्यामुभावपि किमन्येन वरेणात्र एतावद्धिवृतम् मम ऋषिरुवाच वञ्चिताभ्यामिति तदा सर्वमापोमयम् जगते विलोक्यताभ्याम् गदितो भगवान कमलेक्षणः आवाम् जहिनयत्रोर्वीसलिलेण परिप्लुता ऋषिरुवाच तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता कृत्वा चक्रेण वैच्छिन्ने जघने शिरसीतयोः एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् प्रभावमस्यादेव्यास्तु भूय शृणु वदामि ते ऐम् ओ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देंी महात्म्य मधुकैटववधो नाम प्रथम